अरुणाचलपञ्चरत्नं प्रथमः श्लोकः करुणा पूर्णसुदाब्धे कबलितघनविश्वरूपकिरणावल्या अरुणाचल परमात्मन् अरुणो भव प्रथमश्लोकस्य अनुवादः कृपासुदाम्बुधेरुणाचलप्रबोधभास्कर स्वचित्स्वरूपतेजसान्निकीर्णसर्वलोकक हृदम्बुजातकोषकप्रफुल्लता विधायनीम् प्रभां निजां प्रसार्य भोस्तमो विनाशयान्तरम् वार्तिकम् रुदम्भोजविकासाय प्रथमे प्रार्थ्यते शुभा तत्कृपा स्वीयभक्तानां तत्स्वरूपत्वसिद्धये अत्रैव निष्प्रपञ्चत्वम् दिश्यते च परात्मनः अहमित्यखिलस्यान्तर्भावं यत् परमात्मनः करुणेत्युच्यते सैव नाद्वैते विक्रयायतः करुणायाः स्वरूपत्वम् इष्टं न गुणता उच्यते निर्गुणत्वं हि वेदान्तैः परमात्मनः तया गृहीता ये भक्ताः प्रेमिणो वा विचारिणः स्वरूपानुभवस्तेषां ध्रुवो हन्त्यनाशतः निष्प्रपञ्चकम् अद्वैतम् तु सत्यमिति स्फुटम् जगत्कबलनस्योक्त्या पूर्वार्धे गुरुणोच्यते अधिष्ठानतया तस्य विश्वस्यारोपितत्वतः सत्यत्वमस्ति तस्यैव न कुरुते यशदेवा सत् करुणापरमात्मनः नान्यत्किञ्चन कर्तव्यं सत्य आत्मा स एव हि संविद्भानुरसावात्मा यद्भासा मायकं जगत् नीयते नाशमत्यन्तम् तमोभाषा यथा रवेः असदेव तमो यद्वत् सत्यवद्गृह्यते अबुधैः असत्यैव तथा माया सकार्या सत्यवन्मता यथा सत्त्वात्तमो भाषा क्रियते रवेः सकार्या च तथा कबली क्रियते कबलीक्रियते चिता स एव शिष्यते तुर्ये चिदानन्दोऽद्वितीयकः न जीवो न जगत्किञ्चित् तद्ध्वयं च मृषा